तेषां धातूनां पुक् आगमः णौ नि इत्यस्य सप्तन्यं नि इत्युक्ते निक् इत्यतः निच् तस्य पदे इत्यर्थः आद्यन्तौ पथितौ इत्यनेन धातोः परम् आयाति अयं पुगागमः इत्यस्मिन् क उ इत्यनयोः विक् संज्ञालोपश्च कवशिष्यते अर्तिश्च रिश्च वीश्च रिश्च क्मूयिश्च क्ष्मायिश्च आच्च तेषां वितरितद्वन्द्वः अर्पि ह्री ह्री ङीष्मायातः तेषां uh, mm. ता। षष्ठन्त प्रथमान्तं नौ सप्तमं त्रिपदमिदं सूत्रम् अङ्गस्य अधिकारः अनुवृत्ति सूत्रम् अर्ति ह्री ह्री ह्री ङीयाताम् अङ्गानां एतत्तु uh. uh, बहु सुपरिचितसूत्रमस्ति uh, येन पुगागमः विधीयते अत्रासाह्वाव्या वेपां युक् तत् सूत्रमपि पठति वा महोदय यत्र युगागमः अस्ति ये, वे, अत्र इत्येषां धातूनां लुक् आगमो भवति इति परे पुगागमस्य अपवादः अश्च छाश्च साश्च हवाश्च व्याश्च वेश्च ताश्च तेषाम् इतरे द्वन्द्वः षा छा शा भा व्यावेपा तेषां छा छा शा इत्यस्मात् णौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्ति सूत्रं छा छा सा हा ह्या वेताम् अङ्गानां युक् सूत्रे अत्र साक्षात् धातुः इति नास्ति यतोहि शो छो सो वे व्ये वे पै धातवः न सन्ति किन्तु शा चा सा वा व्या पां ते ते अङ्गस्य इत्यस्य बलेन तादृश अङ्गं यत्र शा अङ्गम् अथवा छा सा ह्वा व्या तत्र वे पा अस्ति अत्र पूर्वतनकक्षायां प्रश्नः अभवत् अत्र शा आ, शो योगः णिच् इत्यस्मिन् सन्दर्भे अत्र कीदृशक्रमः अस्ति इति अत्र प्रथमकार्यं किं भवति अत्र शो योगः णिच् अस्मिन् सन्दर्भे एतत् प्र... सूत्रस्य प्रसक्तिः अस्ति वा अस्मिन् सन्दर्भे प्रसक्तिः तु नास्ति इति सूत्रेण भवति अत्र बहु शाच्छासा अत्रा व्यावेपाम युक् इत्यस्मिन् स्थाने यदा यदा सूत्रं षाच्छा साह्वा व्या वापां युक् अस्ति चेत् यतोहि एकवारम् आदेश उपदेशे क्षिति इत्यनेन आत्वं विधीयते तदानीमेव एतत् सूत्रस्य प्रसक्तिः अस्ति यथा भवान उक्तं भवान अवदत अधना शो योगः णिच् इत्यस्मिन् सन्दर्भे आदेश उपदेशे शिति इत्यनेन एव आत्त्वं भवति तदानीमेव एतत् सूत्रस्य प्रसक्तिः अस्ति किन्तु अत्र वे इति साक्षाद्धातुः अस्ति नतु तु वा इत्यस्य वा वे धातुः वे योगः णिच् इत्यस्मिन् सन्दर्भे अपि आत्वं भवति अतः अत्र अत्र प्रश्नः उदेति यत् अत्र किमर्थं वे इति निर्दिष्टम् अस्ति सूत्रे न तु वा अष्टाध्यायी एकवारं परिशीलयामश्चेत् अत्र प्रथमसूत्रं यत्र पुगा आगमः विधीयन्ते निचि परे अत्र uh, सेवेन् त्रि थर्टि सिक्स् सूत्रः सूत्रमस्ति अर्तिह्रीब्लिक्नु ईक्ष्मा यातां पुणौ तत्तु uh, सामान्यसूत्रमस्ति अग्रिमसूत्रमस्ति यथा uh, uh, अग्रे uh, पुरतः अष्टाध्यायी अस्ति चेत् सेवेन् त्रि थर्टि सेवेन् सप्तमाध्याये uh, तृतीयपादे तर्टि सेवेन् सूत्रमस्ति शाच्छासाह्वा व्या अत्र वे इति धातोः फलं यदस्ति अङ्ग् आकारादेशम् आकारादेशः कृत्वा यदङ्गं लभ्यते अस्माभिः तादृश वे धातुः अस्ति अग्रिमसूत्रमस्ति 7.3.38 त्रि थर्टि एय्ट् वो विधूनने जुक् ये एतत्तु अस्माभिः पूर्वतनकक्षायां वयं परिशीलितवन्तः अत्र वो विधूनने जुक् इति वा धातु कृते अपि एकवारं वे योगः णिच् वा योगः णिच् परिशीलयामः द्वे योगः णिच् इत्यस्मिन् सन्दर्भे आदेश उपदेशे शिति बलेन सूत्रबलेन वा योगः णिच् भवति वा अङ्गम अङ्गम् अस्ति अधुना वो विधूनने जुग् इति अपि अत्र वा योगः अत्र वा मूलधातुः अस्ति आ, अतः अत्र वा योगः णिच् द्वयोः भेदनिर्देशनार्थम् अत्र वो विधूनने जुग् इत्यनेन पुगागमम् प्रबाध्य तादृश मूलधातुः वा धातूनां कृते जुगागमः भवेत नतु तु शाच्छा अत्र वा अस्ति चेत् शाच्छा वापां युक् अस्ति अत्र वा युगागमः भवति अत्र यदा वे कृते वा आकारादेशः कृत्वा वा अथवा मूलधातुः वा अस्ति चेदपि युगागमः भवति तद् तत्तु तद, तद, इष्टं नास्ति अतः शाच्छासाह्वा व्या वेपान् युक् इत्यस्मिन् सन्दर्भे वे इति साक्षात् निर्दिष्टः यतोहि अत्र केवलं वे, वे धातुकृते Uh, वे धातोः अङ्गरूपं वा यदस्ति तस्य कृते एव युवागमः भव भवेत् न तु वा धातु कृते इति अत्र uh, uh, चिन्तनमस्ति अत्र किमपि प्रश्नः वा कोऽपि अतः अत्र केवलं वे, वे इत्यस्य साक्षात् निर्दिष्टः अभवत् अन्य कोऽपि आगतः वा अस्ति भगिनी श्रुण्वी अस्मि किन्तुस्था अस्मि अभ्यां किन्तु भगिनी यत् उत्तरं दत्तवती तत् श्रुतवती धन्यवादः भगिनी अधुनावगच्छामि धन्यवादः ओके अधुना अग्रे चरेम विशेष अजन्तधातवः अत्र धीधातूनां कृते वयं पूर्वतनकक्षायाम् अत्र परिशीलनं जातम् अधुना स्निधातुकृते अत्र वयम् आदेशोपदेशेश इति सूत्रेण केवलम् औपदेशिक एजन्तधातूनां कृते एव अत्र आप्त्वम् अस्ति किन्तु विशिष्टसूत्राणि uh, सन्ति येन एनापि uh, यत्र अचोयणि इत्यनेन वृद्धिः uh, भूत्वा एदन्त अङ्गम् अस्ति तस्मिन् कृते अपि विशेषसूत्रबलेन अत्र आकारादेशः भवति अतः अत्रापि स्मीधातु कृते uh, अत्र नित्य uh, विशेष अजन्तधातवः अत्र स्मि धातुः महोदयः हा धातु स्मि स्मि स्मयते इति सेक्शन् सिक्स् अस्ति अत्र नित्यं स्मयतेः इति uh, पठितुं शक्नोति वा महोदय uh, महोदय अस्तु एकं स्मिङ्ग् ईषसने ईषत् हसने द्वादिगणे तु स्मैल् लटि स्मयते टु स्मैल् प्रेरणार्थे स्माययति टु कास् टु स्मैल् परन्तु विस्मयः आश्चर्यं विस्मितिः चमत्कारः नित्यं स्मयतेः यदा प्रयोजकः विस्मयस्य साक्षात् कारणम् तदा नित्यम् एचः आकारादेशो आकारादेशो भवति नित्यत्वात् अत्र विभाषा इत्यस्य अनुवृत्तिक्रमः समाप्यते नित्यं प्रथमान्तं स्मयते षष्ठ्यन्तं द्विपदमिदं सूत्रम् आदे च उपदेशशिति इत्यस्मात् आत् एच् इत्यनः अनुवृत्तिः चि स्फुर चि इत्यस्मात् नौ इत्यस्य अनुवृत्तिः विभेतेः हेतुभत् अयशबद आश्चर स्वीक्रीय अवृत्ति सूत्र हेतुभ निमयते एक आौ सूत्र ये यदा प्रयोजक नाम कर्ता विस्म से साक्षा प्रयोजकं दृष्ट्वा एव प्रयोजकम् एव विस्मयं करो प्रयोजकः एव विस्मयं करोति न तु केनापि वस्तु वस्तुना विस्मयं करोति तदा नित्यं एषः आकारादेशो भवति हेतुभये नित्यं य, य, य, यदि यथा अस्माभिः गत रविवासरे दृष्टं यत् यदा प्रयोजकात् साक्षात् भीतिः भवति तदा शुकागमो भवति धी धातोः परन्तु यदि साक्षात् न भवति तर्हि सामान्यं सामान्यकार्यं भवति तस्मिन्नेव तया ता तादृष्ट्या एव अत्रापि भवति उदाहरणमस्ति विस्मियोगः अचोणिति इति सूत्रेण विस्मीयोगः भवति हा अचोणिति इति एकनिषः विस्मियोगः अचोणिति इति सूत्रेण वृद्धिकार्यं भवति विस्मयीयोगः ई भवति तदनन्तरं नित्यं स्मयतेः इत्य, इत्य, इत्यनेन केचः आत्मं भवति यदि प्रयोजकः विस्मयस्य साक्षात् कारणं विस्मायोगः ई भवति तदनन्तरम् अर्पिह्री इति सूत्रेण विस्मायोगः कुक् योगः इ विस्मापि इति निजन्तु धातुः हा भीस्मयो हेतुभये इत्यनेन प्रयोजकात् साक्षात् विस्मयः चे आत्मने पदत्वं हा भीस्मयोः हेतुभये इत्यनेन प्रयोजकात् साक्षात् विस्मय चेत् आत्मने प्रदत्वं विस्मापि योगः षप् योगः ते विस्मापयते अत्र भीस्मयोः इति न भीस्म्यो भीस्मि भीस्म्योर्हेतुभये भीस्म्यो हेतुभय महोदय हे अत्र षप् किमर्थमागच्छति यत्र कुत्र सर् किमर्थम् आगच्छति ओ अत्र सनाद्यन्ता धातवः इत्यनेन अत्र नूतनधातुः अस्ति कर्तरि शप् खलु विस्मापि अधुना नूतन आतिदेशिकधातुः अस्ति निजन्तधातुः आग। यत्र आत्मनेपदीरूपेण ते प्रत्ययाः आगच्छन्ति कर्तरि षप् इत्यनेन षप् आगच्छति आग आग ओ स्मा स्मे धातुः वा अत्र यदस्ति अपि गणे अस्ति वा अह नास्ति आतिदेशिकधातुः गणे नास्ति अतः कर्तरि शप् इति सामान्य सामान्यविकरणप्रत्यये विधायकसूत्रमस्ति आतिदेशिकधातूनां सर्वानां कृते शप् एव विहितः अस्ति यतोहि अत्र गणप्रसक्तिः नास्ति औपदेशिकधातु एव गण गणरूपेण अत्र विभाजनं भवति किन्तु आतिदेशिकधातूनां कृते यत्र सनाद्यन्त विशिष्टसूत्रेण यत्र धातुसंज्ञा विधीयते तस्य सर्वथा कर्तृर्थके प्रत्यये परे कर्तरिषपि सामान्यसूत्रेण एव विकरणप्रत्ययः विधीयते अथु अत्र अत्र प्रयोजकात् भयं नास्ति चेत् अत्र रूपं किं भवति भयं नास्ति प्रयोजकः साक्षात् आश्चर्यस्य मूलं न भवति चेत् अत्र किं भवति यत् विस्मयोगः णिच् अचोण्तिः भवति वृद्धिः भवति विस्मययोगः इ तदनन्तरं नित्यं स्मयते इत्यस्य प्रसक्तिः न भवति अतः विस्मयोगः इ एव तिष्ठति त अतः विस्मयोगः इ अस्ति एचो यवा याव इति सूत्रेण विस्माहि इति नूतनधातुः भवति तदनन्तरं भीस्म्यो भीस्म्योर्हेतुभे इति सूत्रेण भीस्म्योर् हेतुभे इति सूत्रमपि कार्यं न सूत्रम करोति यतोहि प्रयोजकात् साक्षात् विस्मय नास्ति अतः परस्मै तत्त्वम् एव भवति रूपं भवति विस्मायि योगः शप् योगः ति विस्माय विस्माय यति सामान्य वायावः इति सूत्रेण आदेशः भवति तत्र त्वं पुगागमः नास्ति अत्र दृष्टान्तः अस्ति पूर्वमपि भी धातूनां कृते वयं परिशीलितवन्तः अत्र यत्र प्रयोजकात् विस्मयः अस्ति चेत् तत्र विस्मापयते आत्मनेपदी मुण्डो जटिल्लो बालकं विस्मापयते प.. विस्मा अस्ति अत्र साक्षात् प... बाल्डेसिटिक् प्रयोजकः प्रयोजकात् अत्र आश्चर्यमस्ति यत्र प्रयोजकात् विस्मयः नास्ति अत्र चोरः कुञ्जिकया अत्र कुञ्जिका केन्द्रमूलमस्ति यस्मात् तत्र आश्चर्यम् आश्चर्यजनकं भवति कुञ्जिका चोरः कुञ्जिकया एनं विस्माययति अतः अत्र साक्षात् प्रयो प्रयोजकः अत्र चोरः यतोहि कुञ्जिका कुञ्जिका प्रयु प्रयुज्यते अतः अत्र विस्मायति अस्तु अत्र अधुना अधुनान्तधातुः इका, इकार, परिशीलनम् अस्ति अतः बालसुब्रह्मण्यं महोदय प्रिधातुः अत्र पठितुं शक्नोति वा सामान्यव्यवस्था अचोति इत्यनेन वृद्धिः अयवायावः इत्यनेन आय् आदेशः नी नायति यावन्तः इकारान्तदातवः ईकारान्तदातवः च अपवादभूताः सन्ति तेषां वर्णनम् अधः भवन्ती धातुः इति न प्रि इति न प्रि स्मि धातोः अग्रे यद्धातुः अस्ति प्रि प्रि प्रीणयति स्मिधातुः अग्रे अस्ति अत्र अधुना एव यशवर्धनमहोदयेन स्मी धातुः इति पठितमस्ति 6 सेक्षन् 6 अग्रे सेक्षन् 7 प्री धातुः अस्ति प्रीं तर्पणे अर्थः प्रीतिं करोति प्रसन्नं करोति तृप्तिं uh. करोति तदस्ति ृप् सुरादिगणे प्रीणयति ते प्रायति ते प्रयति ते क्रियादिगणे प्रीणाति प्रीणिते पठामि महोदय अत्र सूत्रम् अस्ति विशिष्टसूत्रमस्ति प्रिधातु कृते वक्तव्यः इति वार्तिकम् वार्तिकवाक्यम् निचिपरे दु प्रि इति धातोः नुक् अगमः दू धातुः इति अग्रे उ ऊकारान्तेषु दृश्यताम् नुकि इक उ इत्यनयोः इत्सम्य लोपश्च इन् अवशिष्यते प्री योग णिच् नुक, सप्री नुक योग नुक् नुकाङ्गमः नुक् योग इति निजन्त तुः आम् महोदय अत्र प्रीणियोगः निट् इत्यस्मिन् सन्दर्भे अचोयण्ति इति सूत्रस्य प्रसक्तिः अस्ति वा किमर्थं नास्ति अत्र अत्र इकारः इत्सञ्कवर्णकः वर्णः अतः प्रियोगः निचेव अजन्तधातुः अस्ति न अचोयणिति इति सूत्रस्य निमित्तं किमस्ति अचोयणिति इति सूत्रस्य कार्यं किमस्ति वृद्धिः भवति कस्मिन् सन्दर्भे निमित् तन... अजन्ताङ्गानां नि, प्रत्यये परे, परे। अधुना अत्र प्रिययोगः निच् इत्यस्मिन् सन्दर्भे अचो इणिति इति सूत्रस्य प्रसक्तिः अस्ति वा इति सूत्रस्य प्रसक्तिः अस्ति चेत् अत्र कार्यं किं भवति फलितं रूप अन्तिमरूपं किमस्ति Uh, uh, ी निक्ष सो तस्मात् इकारः नुगागमः भवति प्री इ सो नकारस्थाने णकारः याति नं भवति प्रीणी अत्र अचोयन् इति सूत्रस्य प्रसक्तिः अस्ति चेत् अत्र प्रैयोगः णिच् भवति खलु अधुना अत्र धू प्रियोर् लुग् वक्तव्यः इत्यनेन वार्तिकस्य अत्र प्रै योगः लुक् भवति वा अत्र अथोयणिति इति सूत्रस्य प्रसक्तिः अस्ति किन्तु अत्र धू प्री इत्यनयोः लुगागमः भवति इति साक्षात् अत्र वार्तिकम् अस्ति अस्मिन् सन्दर्भे अधुना अत्र प्री इत्यस्य धातोः लुगागमः अस्ति एकवारी साक्षात् किल प्रि हा प्रिनुकि अधुना अचोयन् इति सूत्रस्य प्रसक्तिः अस्ति वा अस्ति अचिस्ति हा अतः णिच् धातु निच् मध्य अनयोः मध्ये नुगागमः अस्ति अतः अत्र एकवारम् आगमः अस्ति चेत् अधुना णिच् प्रत्ययस्य निमित्तं तन् न भवति तत् न भवति अतः अत्र केवलं प्री प्रीणि इति अङ्गमस्ति अधुना अत्र किं किं भवति अत्र ने ने नकारा तत्तु अन्तिमकार्यमस्ति किन्तु सम्यगेव अधुना किं भवति निजन्त धातुः केन सूत्रेण भवति सनाद्यन्ता धातवः इत्यनेन तस्य धातुसंज्ञा भवति अधुना पू आ, पूर्वं यत्र नूतनधातुः अस्ति कर्तरि शप् इत्यनेन शप् आगत्य तिङन्तप्रत्ययः अपि भवति त्रीणि योगः शप् योगः ति अस्ति ोगः ति अधुना किं भवति अत्र गुणकार्यम् इत्यनेन तत् कार्यमस्ति अधुना अत्र प्रीधातो प्रीणयति इति तु सामान्य एतत्तु प्रीतिं करोति प्रसन्नं करोति तृप्तिं करोति एतत्तु सामान्य उदा सामान्य सामान्य भाषा प्रयोजनम् भवति एतस्य प्रीणयति किन्तु अत्र यत्र नुग् आगमः न भवति अत्र प्रथमा पङ्क्ति प्रीतिं करोति प्रसन्नं करोति तृप्तिं करोति चुरादिगणे प्रीणयति प्रीणयते प्राययति प्रायते तदपि अस्ति प्राययति प्रायते तत् कथं भवति प्राययति प्रायते यत्र मृगागमः नास्ति चेत् मृगागमः hmm. नास्ति चेत् अत्र केवलं प्रियोगः निच् अस्ति अत्र अचोळिति इति सूत्रेण प्रयोगः लिच् अस्ति इत्यनेन प्रायी इति नूतनधातुः अस्ति समानकार्यं कर्तरिषत् तिङन्तं कर्तरिषः ति प्रत्ययः भूत्वा प्राययति प्राययते किन्तु अत्र एकवारं परिशीलनीयं यत् नुग् आगमः नित्यं वा अथवा विकल्पः वा किमर्थम् चुरादिगणे प्रीणयति प्रीणयते प्रायति प्रायते इति रूपद्वयम् अस्ति इति किञ्चित् अत्र अवलोकनीयमस्ति अत्र अत्र वार्तिकायां धू प्रियो लुग् वक्तव्यः इति अत्र विभाषा अन्यकरस्याम् इति किमपि नास्ति अतः अत्र परिशीलनीयं किमर्थम् अत्र रूपद्वयमस्ति अहम् एकवारं तदपि परिशीलयित्वा वदामि तत्र वार्तिके किम् अस्ति किमर्थं रूपद्वयमस्ति इति कोऽपि प्रश्नः वा अग्रे ह्रीब्ली री धातुः धातवः सन्ति ईकारान् अस्ति प्रायः अनेनेव कारणेन तत्सूत्रमस्ति खलु छाछा छा भावे पाम् इति तत्र षा छा इति न तु छो छोसोः छो, यतोहि पाणिनिः इष्टति यत् पाणिनिः इच्छति यत् प्रथमं तस्य आत्वं भवेत् तदनन्तरं युगागमो भवेत् न तु साक्षात् धातुना युगागम, धातु युगागम इति खलु तदर्थमेव अत्र इकारान्तधातुः अपि परिशीलयामश्चेत् अत्र ह्री री तत्रापि ह्रीब्लि रि धातु धातवः अत्र अस्माभिः सुपरिचितसूत्रमस्ति खलु अर्ति ह्रीब्लि रि क्ली क्ष्मा यातां पुणौ साधारणतया ईकारान्तधातुः अस्ति चेत् अचो इति सूत्रेण अत्र वृद्धिः भवेत् किन्तु साक्षात् अत्र सूत्रे ह्री ब्ली इति अस्ति अतः अत्र वृद्धिकार्यं बाधयित्वा अत्र सूत्रबलात् साक्षात् ह्रीब्लीरि इत्यस्ति इति कारणतः अत्र पुगागमः प्रथमः भवति प्रथमं पुगागमः भवति तदनन्तरं तदनन्तरं यतोहि साक्षात्प्रत्यपरे नास्ति अतः अश्वमिति सूत्रमेव कार्यं न करोति कार्यं न करोति आम् अतः अतः अत्र ह्री ली रि रूपाणि एकवारं परिशीलयामः अत्र ह्री इत्यस्य अर्थः अस्ति लज्जा इति साक्षात् श्लोके अपि किञ्चित् अस्ति यत्र पूजासमये ह्री इति किञ्चित् या देवी सर्वभूतेषु ह्रीरूपेण संस्थिता तदपि अस्ति अत्र लज्जा विषये अत्र लटी पूर्वं वयं यत्र लट् लकारस्य विषय विषये सार्वधातुक विषये एतत् वयं परिशीलितवन्तः यत्र जिह्रेति इति अस्ति यतोहि जुहोत्यादिगणे अस्ति तत्र अभ्यासकार्यं द्वित्वं तत् सर्वं भूत्वा अन्तिमरूपमस्ति जिह्रेति अत्र ब्ली इति क्रयादिगणे अस्ति तत्रापि अतः अत्र श्ना इति प्रत्यय आगत्य लटि व्लिनाति इति अस्ति अत्र किञ्चित् ह्रस्वकार्यं भवति यतोहि ग्ली इति दीर्घ ईकारान्तधातुः अस्ति ब्ली योगः श्ना योगः इति अस्मिन् सन्दर्भे रि अपि तथा रि क्रियादिगणे ईकारान्तदीर्घ ईकारान्तधातुः अस्ति किन्तु अन्तिमरूपमस्ति रिणाति हरस्व इकार इकारमस्ति अत्र अतः किञ्चित् विशेषकार्यं भवति पुवादीनां ह्रस्वः अत्र पुवादीनां ह्रस्वः इति सूत्रं किञ्चित् एकवारं परिशीलयामः अस्मिन् सन्दर्भे अस्मिन् सन्दर्भे नास्ति यतोहि यत्र णि इत्यस्य सन्दर्भे नास्ति किन्तु एकवारं परिशीलयामः किञ्चित् भूत्वा भवगिनी पठितुं शक्नोति वा ह्रस्वः एकवारम् अहं पठामि अत्र पुूञ् भू द्या री ली ब्ली प्ली स्तॄ क्रू व्रू व्रू भ्रू मृ द्रु ज्रु ज्रु सर्वे ऋघान्तधातवः धृ गृ क्रू रू गृ एषां धातूनां ह्रस्वत्वं भवति क्षितिप्रत्यये परे अत्र ह्रस्वत्वं भवति क्षितिप्रत्यये परे अत्र ह्रस्वत्वमिति अतश्च अत्र विधिः अलोन्त्यस्य केवलं अन्तिम स्थाने एव तत् ह्रस्व ह्रस्वत्वं विधीयते अत्र अनुवृत्तिसहितसूत्रम् अस्ति वादीनां अचह अङ्गस्य ह्रस्वः शिति आ, अत्र ह्री व्लि रि सर्वे जुहोत्यादिगणे शपः श्लू अस्ति किन्तु अत्र आ, किन्तु अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति नास्ति किन्तु व्ली रि यत्र श्नात् प्रत्ययः विधीयते अत्र शित् अस्ति अतः क्षितिप्रत्यये परे अत्र ग्ली योगः स्नायोगः अस्ति इत्यस्मिन् सन्दर्भे अन्तिम ईकारस्य स्थाने ह्रस्व इकारादेशः भवति ग्लिनाति ऋणाति इति रूपम् अस्ति किन्तु अस्मिन् सन्दर्भे यत्र णिच् प्रत्ययः भवति ह्रीयोगः णिच् ग्लि पादीनां प्वा, धातो नास्ति खलु ह्री नास्ति अत्र केवलं एकस्य प्रश्नः अस्ति पादीनां धातोः सर्वे त्र्याधिगणे सन्ति वा एकवारः किन्तु व्लि um, तु अस्ति व्लिरि तु स्तः किन्तु अन्ये धातवः केवलं क्रयादिगणे सन्ति न वा इति न जानामि एकवारं परिशीलयामि अस्तु अतः अत्र ह्रियोगः णिच् ब्लियोगः णिच् ह्रियोगः णिच् इत्यस्मिन् सन्दर्भे क्रमं किं भवति अचोयणिति इति सूत्रस्य प्रसक्तिः अस्ति किन्तु आ, तस्य प्राप् अस्ति वा अत्रितां पुनौ इति सूत्रेण सूत्रं वदति यत् साक्षात् धातु धातुतः धातुतः एव पुगागमः भवति अतः प्रथमम् अचोण् इति कार्यं न करोति अस्तु किन्तु अन्ये ईकारान्त धातवः सन्ति सन्ति चेत् यथा अन्ययोगः अस्मिन् सन्दर्भे अचोण्ति सूत्रस्य प्रसक्तिः अस्ति न तु पुगागमः यतोहि अत्र अस्ति अस्तु अतः अत्र पुगागमः भूत्वा ह्री ह्रीप् ह्रीयोगः पुक् योगः णिच् अधुना ह्रीप् योगः अस्मिन् सन्दर्भे किं भवति अत्र ह्रीप् इति अस्ति उपधायां दीर्घ अस्ति अत्र पुगन्तलुपधस्य च इति सूत्रस्य प्रसक्तिः अस्ति न वा सूत्रं किं वदति वदति यत् इकारस्व इकारः उकारः अथवा पुगागमः अस्ति चेत् गुणकार्यं भवति अत्र ह्रीयोगः पुक् भवति तत्र ह्रीप भवति पुनः पुगागमः पुक् पुगन्त पुगन्तधातुः पुगन्तधागन्तः अस्ति अतः पुगन्त परन्तु अत्र तु इत्यस्य अधिकारः किमस्ति महोदय अङ्गस्य अस्ति वा यतोहि पृच्छामि यतोहि हीप् तु धातुः नास्ति खलु न किन्तु ह्रीयोगः पुक् योगः णिच् अस्ति णिच् पूर्वं किमपि यदस्ति तत् प्रत्ययस्य अङ्गमेव प्रत्ययाय अङ्गमेव पुगन्तलघुपदस्य इति अतः ह्रीप् इति अङ्गमस्ति अतः पुगन्तलघुपदस्य च इति प्रसक्तिः अस्ति रेप् भवति रे अतः अत्र ह्रीप् इत्यस्मिन् अत्र लघुपध इत्यस्य महत्वं किमपि नास्ति केवलं ुगन्तः अस्ति अतः अत्र दीर्घत्वं वा ह्रस्वत्वं वा तत् तस्य किमपि प्रयोजनं नास्ति इकः भवेत् उपधायाम् इकः हा वर्णः अस्ति चेत् तस्य तस्य स्थाने गुणादेशः भवति आम् अधुना किं भवति ह्रेप् भवति ह्रेपि इति नूतन धातुः भवति रेपि तदनन्तरं रेपि योगः तदेव अस्मा तीरि धातुत्रयकृते अपि तदेव कार्यमस्ति यत्र पुगन्ताङ्गानाम् उपधायां गुणः ह्रेपयति रेपयति इति रूपमस्ति अस्तु भवली इति धातो धा इति धातोः अर्थं आर, जानाति वा अत्र व्ली धातुः अर्थः गच्छति समर्थनं करोति चिनोति इति अस्ति ीनाति उदाहरणे दृष्टांते दृष्टान्तः मया न यो योजितमस्ति किन्तु रि धातुः मोचयति इति अर्थे अस्ति रिमोक्षे लटि ऋणाति इति अस्ति मोचयति पश्यामि दृष्टा खलु अत्र तु दीर्घ न पुगन्तलुपधस्य च इति प्रथमसूत्रं पठामि एकवारं पुगन्तस्य अङ्गस्य लघुपधस्य च तत्र पुगन्तस्य अङ्गस्य एक एकभागः लघुपधस्य महोदय अहम् एकवारं पश्यामि यत्र दृष्टान्तः अस्ति चेत् सम्यक् अस्ति अग्रिमकक्षायात् प्रारभ्य अहं किञ्चित् दृष्टान्तः अपि तस्य योजनमपि करिष्यामि अस्तु अधुना अग्रे अग्रिमधातुः अस्ति इन् धातुः इत् एतद्धातुः वयम् अदादिगणे परिशीलितवन्तः यत्र एति इतः यन्ति रूपाणि वयम् अस्माभिः बहु विस्तारेण चर्चा जाता चर्चा जाता यतो अत्र अत्र बहु कार्यमस्ति अत्र अया यकारादेशः यणादेशः अथवा इयङादेशः किं भवति इति बहुविस्तारेण पूर्वं वयं चर्चितवन्तः किन्तु अत्र एकवारं पुनः परिशीलयामः अत्र किञ्चित् गणनिमित्तिक सूत्रमपि अस्ति इन् धातुः सामान्यतया अत्र इन् धातुः अस्ति किन्तु इक् धातुः अपि इन्वदि, इन्वदिक् इन्वदिक् इति वक् बक, वक्तव्यः इति किञ्चित् गणसम्बद्धसूत्रमस्ति यानि कार्याणि इन् भवन्ति ते सर्वे इक् धातुकृते अपि अत्र भवन्ति इन्वदिकः इति वार्तिकेन तत्र इक् धातोः अपि इन्वद्भावः अस्ति अधुना इन् धातोः अत्र णकारः तु इत्सञ्जकवर्णः अत्र साक्षात् धात्वादेशः भवति अजन्तधातुः अस्ति केवलम् ईवर्णः अत्र साक्षात् एतत् नौ गमिरबोधने इति सूत्रबलेन अत्र साक्षात् धात्वा देशः भवति सुब्रह्मण्यमहोदय एकवारं पठितुं पठितुमिच्छति वा नौ गमिरबोधने इति सूत्रम् इन्मदिकः इति भातिकेन धातोः इत कृपया इति वास्तिकेन इक् धातोः न तत् पूर्वम् इण्क् धातुः अस्ति अत्र इण् गतौ अदादिगणे अस्ति खलु क्षम्यतां महोदय तत् पूर्वं किञ्चित् किञ्चित् पूर्वं टि एति इतः यन्ति इत्यादीनि रूपाणि लटि एति इतः यन्ति इत्यादि रूपाणि नौघिरबोधने णिचिफरे इण् धातुः गत्यस्ते न तु बोधनार्थे चेत् धातु आदेशो भवति न बोधनम् अबधनम् नञ्च तत्पुरुषः तस्मिन् अबोधने गमिपदे इकारः उच्चारणार्थम् गमिः प्रथमान्तम् अबोधने सप्तम् यन्त्रम् त्रिपदमिदं सूत्रम् इणो घा इत्यस्मात् इणः इत्यस्य अनुवृत्तिः अनुभृतिसहितसूत्रम् अबोधने इणः घमिः नौ वदतु महोदय अत्र किं भवति कार्यं किं भवति इण् योगः लिक् सन्दर्भे एतत् सूत्रस्य फलं किमस्ति दिशि परे अस्तु गम् इति दातु आदेशो भवति भोद्रार्थं न चेत् अत्र गम इति धातुः नास्ति द, गम, गम इति आदेशः भवति इण् इण् धातोः स्थाने इण् स्थाने किन्तु यथा उक्तम् अत्र अबोधने बोधनार्थ बोधनार्थे नास्ति बोधनार्थे अत्र इन् धातुः एव तिष्ठति गम् इति आदेशः न भवति नहीं। नहीं। नहीं। अतः अत्र अबोधनार्थे अस्ति चेत् अत्र इण्योगः इण् योगः सन्दर्भे एकवारं पश्यामः किं अत्र सूत्रस्य किञ्चित् अपरसूत्रस्य प्रसक्तिः अस्ति वा इण् सन्दर्भे निच् इति अजादिप्रत्ययः अस्ति खलु निच् इत्यस्य निरनुबन्धरूपम् इकारः इका अस्ति इका हा अतः इण् योगः इत्यस्मिन् सन्दर्भे केन सू किं सूत्रस्य अत्र प्रसक्तिः अस्ति इको यण्च् इति सूत्रस्य प्रसक्तिः अस्ति वा आ, किन्तु तस्य प्राप्तिः अस्ति वा इति सूत्रस्य प्राप्तिः अस्ति वा यशोदन् महोदय भवान् किं वदति अस्ति खलु Hmm. अत्र तु सूत्रं वदति खलु अत्र सर्वप्रथमं तु धात्वादेशः भवति गम् आगच्छति हा किन्तु अत्र आ, अपवाद सूत्र प्रथमतया यत्र एनचि इति सूत्रस्य प्रसक्तिः अस्ति किन्तु अत्र अङ्गस्य इति बलं अधिकम् इनोयण् इति सूत्रस्य प्रसक्तिः अस्ति वा इनोयण् कस्यापि सूत्र सूत्र इनोयण् किं वदति इरोयण्नोयण् अपि तथैव वदति खलु इनो इनोयण् इति अङ्गस्य अधिकारः इनोयण् इकोएणर्जि इति सूत्रस्य अपवादः अस्ति खलु परन्तु अत्रापि अत्रापि तत् ता, तस्य सूत्रस्य प्रसक्तिः नास्ति यतोहि गभीरबोधने इति सूत्रस्य महत्त्वम् अधिकमस्ति बलमधिकमस्ति प्रायः ता, एक एवमपि अस्ति महोदय यत् अचोनिति इति सूत्रस्य अपि अपवादः अस्ति खलु इकोयणच् इति सूत्रस्य अपवादः युनोयण् अस्ति युनोयण् इति अङ्गस्य इत्यस्य अधिकारे अस्ति अतः तस्य बलमस्ति किन्तु अत्र युनोयण् इति सूत्रस्य निमित्तम् अस्ति अजादिप्रत्ययः अत्र यण् धातुः अपि अस्ति किन्तु अत्र अछोयण् इति सूत्रस्य बहु यतोहि अत्र अजादिप्रत्ययः किन्तु णिच् प्रत्ययः णिच् प्रत्ययनिमित्तकं न तु सर्वे अजादिप्रत्ययः अतः अत्र अथोयिणीति इति सूत्रस्य प्रसक्तिः अपवादः अस्ति किन्तु तत् प्रबाध्य नौ इति साक्षात् इन् स्थाने गम् आदेशः भवेत् ऋचि परे इति अस्ति इति कारणतः अपवादबलेन अत्र गम् आदेशः भवति अबोधने अधुना एकवारम् अत्र अबोधनार्थे इत्युक्ते अत्र गत्यर्थे अस्ति चेत् गम् इन् स्थाने अधुना गम् आदेशः अभवत् गम् योगः इ अ, अत्र किं भवति गम योगः किमस्ति अत्र हा, हा। अत्र अकारस्य किञ्चित् वृद्धिकार्यम् अथवा गुणकार्यं भवति वा निचि प्रत्यये परे ना, ना, वृद्धिकार्यं भवति वा अतो उपधायाः इति सूत्रस्य प्रसक्तिः अस्ति वा अत्र अतो उपधायाः किं वदति उपधायाः अत्र उपधायां स्थितस्य अत्वर्णस्य वृद्धिः भवति निति निति प्रत्यये परे अत्र निमित्तमस्ति अत्र णिच् अस्ति परे आ, उपधायां उपधायाम् अत्र अकारः अपि अस्ति अतः अत्र गां योगः भवति खलु गम् योगः निच् इत्यस्मिन् सन्दर्भे अत्र निमित्तम् अस्ति निचि प्रत्यये परे उपधायाम् अत्र अस्ति अकारः अस्ति अत् अस्ति अतः अत्र अत उपधायाः सूत्रेण अत्र वृद्धिरादेशः भवति अकार उपधायां स्थितस्य अकारस्य स्थाने वृद्धिरादेशः भवति आकारः गां योगः णिच् हा अत्र किञ्चित् किञ्चित् कार्यमस्ति अग्रे पूर्वं वयं परिशीलितवन्तः यत्र छुरादिगणे केचन धातवः सन्ति यत्र मित् धातुसंज्ञा अस्ति अत्र नान्ये मितो नाण्ये मितो हेतौ इत्यनेन अत्र छुरादिगणीयधातवः सन्ति यत्र ज्ञा यं च रः केचन धातवः सन्ति यत्र मित् संज्ञा भवति अतः अत्र प्रयोजनमस्ति यत्र मिताम ह्रस्वः इत्यनेन उपधायां स्थितस्य वर्णस्य ह्रस्वत्वं स्वरस्य ह्रस्वत्वं भवति अत्र धातुः अपि मित् मित गणे अस्ति वा हा अत्र किञ्चित् विशिष्ट सूत्रमस्ति और् अत्र गणसूत्रमस्ति यत्र अमन्तः अस्ति चेत् तस्यापि मित्संज्ञा भवेत् अत्र गणसूत्रमस्ति जनी ज्रूष् क्नसु रञ्जोमन्ताश्च अत्र अत्र अस्ति करपत्रे किञ्चित् लोपः अस्ति इति अत्र जनी ज्रूष् क्नसु क्नसु इति धातुः अस्ति क्नस् इति किञ्चित् धातुः जनी जुरुष् क्नस् रञ्ज् अमन्त, आ, अमन्त इत्युक्ते इत ये धातवः यस्य ये धातवः ये धातुः यस्य धात अन्ते अम अस्ति ते धातवः अपि ते धातवः अपि मित् इति स्वीकुर्मः अत्र गाम् इति अस्ति गां योगः ण्येत् अधुना अत्र अमन्तः अस्ति खलु गां यतोहि गकारः अकारः अम् इति स्वीकुर्मश्चेत् अमन्तः अस्ति अतः एन् एतद् गणसूत्रेण तस्यापि लित्संज्ञा अस्ति अतः मितां ह्रस्वः इत्यनेन यत्र अत्र मितिधातूनाम् उपधायाः स्वरस्य ह्रस्वत्वं भवति अत्र निजन्तधातुः अस्ति गमि अधुना यथा पूर्वं ज्ञपि इति वयं परिशीलितवन्तः तदानीमेव अत्र गमि इति निजन्तधातुः अस्ति अतः गत्यर्थे इन् धातोः गत्यर अत्र रूपं भवति गमयति किन्तु यत्र बोधनार्थे अस्ति चेत् बोधनार्थे चेत् अस्ति चेत् अत्र इन् धातोः का गति कः गतिः अस्ति इत्युक्ते अत्र प्रति इति उपसर्गपूर्वकः रूपं परिशीलयामः अत्र प्रति उपसर्गपूर्वकः इन् धातुः बोधनार्थे अस्ति अतः hmm. प्रतियोगः इन् योगः अत्र इन गम् भवति न न भवति यतोहि बोधनार्थे नास्ति अतः अत्र किं कार्यं भवति In... इयोगः निच् अत्र अचो युनिति इति सूत्रस्य प्रसक्तिः प्राप्तिः अस्ति वा प्रसक्तिः अस्ति प्राप्तिः अपि अस्ति यतोहि पूर्वमपि प्राप्तिः अस्ति किन्तु अत्र नौ गमिरबोधने इति सूत्रस्य अपवादबलात् अत्र गमादेशः अत्र बोधनात् अस्ति इति कारणतः अपवादसूत्रं किमपि नास्ति अतः अचोणिति सूत्रस्य प्राप्तिः अस्ति अचोयणिति सूत्रेण किं भवति अत्र बुण्दी, बुण्दी बुण्दी। <laughs> हा अतः तृतीयोगः ऐ इ अत्र दत्तमस्ति क्रमः अपि अत्र सामान्य सामान्यक्रमम् अस्ति यत्र ऐकारः अस्ति किन्तु एतत्तु उपदेशावस्थायाम् अतः अत्र किमपि आप्तवं पुगागमः सर्वं तत् अत्र नास्ति एव अतः केवलम् एचोयवायावः इति सूत्रेण केवलम् अत्र आयादेशः भवति हा अतः अत्र तृत्यायि अतः पुनः अत्र सनाद्यन्ता धातवः नूतनधातुः कर्तरिषप् इत्यनेन विकरणप्रत्ययः सर्वं मेलयित्वा अत्र प्रत्याययति इति अस्ति यत्र ज्ञानं बोधनं भवति अत्र प्रेरयति बोधनार्थे अथवा ज्ञान ज्ञानस्य कृते अत्र प्रत्याययति इति रूपम हा तृत्ययः इति अपि प्रत्याय इति प्रत्ययः प्रत्याय इति तु सामा सामान्यरूपम् अस्ति अत्र भाष्यम् अपि एकवारं बहुवारम् अत्र अस्ति प्रत्ययः इत्युक्ते यत् साक्षात् ज्ञानं भवति इति अत्र प्रत्ययः प्रत्ययः इति अस्तु अधुना पूर्वं वयं अत्र गणसूत्रम् इन्वदिक्कः इति अपि परिशीलितवन्तः यत्र इक् धातुः इन् धातुः इव अदा विगणे वयं परिशीलितवन्तः यत् इक् सर्वदा अधिपूर्वकः अतः अत्र अधियोगः इक् योगः इक अस्मिन् सन्दर्भे किं भवति ौ गमिरबोधने इति सूत्रस्य प्रसक्तिः अस्ति वा यतोहि इण्वदिकः इति वक्तव्यः इत धातुः अपि यानि कार्याणि इण् कृते भवन्ति ते सर्वे अत्रापि भवन्ति अतः णौ गमिरबोधने इति सूत्रस्य अत्रापि प्राप्तिः अस्ति यत्र अबोधनार्थे गम् धातुः गम आदेशः भव क्षम्यताम् गम् आदेशः भवति इक् धातुः स्थाने अतः अधियोगः गम् योगः णिच् अस्ति अत्रापि पूर्वं यदा अस्माभिः दृष्टम् अत्रापि उपधाया अत उपधायाः इति सूत्रेण वृद्धिकार्यं भवति अत्रापि अत्र भवति यतोहि अमन्तधा अमन्तधातुः अस्ति गाम् इति अमन्तधातुः अतः अत्र मितां ह्रस्वः इत्यनेन उपधायां स्थितस्य स्वरस्य ह्रस्वत्वं भवति अधिगमयति इति रूपम् अस्ति सर्वं समानमस्ति किन्तु अत्र नौ इति सूत्रम् इन्धातुः कृते इग्धातुः इन कृते अस्ति <coughs> अधुना उकारान्तः उकारान्तधातवः अत्र अत्रापि सामान्यकार्यमस्ति यतोहि अजन्तधातुः अस्ति यत्र अजन्तधातुः अस्ति चेत् अत्र अचोयिति इत्यनेन वृद्धिकार्यं भवति किन्तु अत्र विशिष्टकार्यमस्ति यशवर्धनमहोदय अत्र पठितुम् इच्छति वा धू प्री प्रियो वक्तव्यः इति आम् अपि पठामि वा पठतु महोदय सामान्यव्यवस्था अचोणिति इत्येन वृद्धिः एषो याव इत्यनेन आवादेशः भूयोगः निच् वृद्धिः भवति भूयोगः इ भावी इति धातु भवति धावयति अत्र एकः एव अपवादः अस्ति धूय धूयकम्पने चिरादिगणे लटी धूनयति धूनयते धावयति धावयति धवति धवते धू uh, इत्युक्ते महोदय वाशिङ्ग् वा प्रक्षालनं वा आ, आ, एक एकवारं प्रिङो धूयप्रिङोर् प्रींगो, नुक् वक्तव्य इति वार्तिकेन इति परे इति धातोः नुगागमः धूयोगः निक् धूयोगः लुक् योगः धूमि इति धातो भवति धूमयति प्रायः विकल्पेन भवति यतोहि धावयति अपि भवति यत्र <laughs> नुगागमः नास्ति तत्र सामान्य आवादेशः प्रथमतया वृद्धिः भूत्वा आवादेशः भवति किन्तु अत्र प्री यथा प्रीणयति अस्ति पूर्वं वा बा, वयं परिशीलितवन्तः तथा एव अत्रापि धूनयति इति एतत्तु वार्तिका अस्ति वार्तिक तद्बलेन नुगागमः अस्ति आ, अधुना ऋकारान्त रुकारान्त धातवः तस्य परिशीलनम् अत्र जागृधातुः वयम् अदादिगणे परिशीलितवन्तः जागृधातोः अत्र अदादिगणे जागृधातोः अत्र किञ्चित् अत्र तस्य अभ्या अभ्याससंज्ञा अत्र तस्य अभ्याससंज्ञा भवति किन्तु अत्र तस्य चर्चा नास्ति अत्र एकवारं पठितुमिच्छति वा महोदय जाग्रधातोः जाग्रो अविचीन लिङ्सु जाग्रधातोः गुणो भवति वि चिण् णल् निट् इत्येषां पर्याणां तप्यानां पर्युदासे वि इति वृत्त्यविशेषः चिन् इति लुङ् लकारस्य णल् इति लिट् लकारस्य निट् इत्यनेन संज्ञकः नकारः यस्य विट् इत्यनयोः विषये गुणनिषेधः इदानीम् अपि भवति वि नि इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति आ चिन् नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति अन्यत्र सर्वत्र गुणः भवति गुण एव अचोनिति इत्यनयोः अपवादः निच्च विश्चिञ्च नीच्च तेषां ध्विन्न न विचिन्न लिङ्क्तः अविचिलिङ्क्तः तेषु अविचिलिङ्ाग्रः षष्ठ्यन्तम् अप्य निजर्गुणः इत्यस्मात् गुणः इत्यस्य निवृत्तिः जाग्रह गुणः वि चिन् नल् लिञ्चु किं भवति महोदय सर्वदा यदि वि नास्ति चिन् नास्ति अथवा निट् लकारः नास्ति चेत् सर्वदा जाग्रहतोः गुणकार्यं भवति हा नित् नास्ति नल् नल् नास्ति अथवा नित नास्ति अत्र वि अथवा नित् अस्ति चेत् गुणनिषेधमल् अस्ति चेत् वृद्धिः भवति अन्यथा सर्वत्र सर्वदा गुणकार्यं खलु अत्र णिच् णित् अथवा हा परे अस्ति चेत् अत्र गुणकार्यं भवति वा किं महोदय प्रत्यये परे णिच् प्रत्यये परे अत्र एकवारं लुङ् लकारस्य किञ्चित् प्रसिद्धिः यतोहि चिन्प्रत्ययः अस्माभिः कृतं किञ्चित् परिशीलना अभवत् लुङ् लकारे अत्र कर्मणि भावे प्रथमपुरुषस्य एकवचने कः प्रत्ययः भवति किञ्चित् स्मर्यते चिन् भवति चिन् भावकर्मणोः इत्यनेन लुङ्ग् लकारस्य प्रथमपुरुषस्य एकवचने अधुना जागृयोगः चिन् अत्र चिन् लुङ्ग् विषये लुङ्ग् विषये अत्र अङ्कारः पूर्वमस्ति लुङ्ग् विषये महोदय चिन् प्रथमपुरुषे एकवचने चिन् अस्ति खलु तत्र सर्वप्रथमं तु अकारः आगच्छति अजाग्रयोगः चिन् चिन् महोदय तत्र केवलम् इकारः एव तिष्ठति खलु अजागर अजाग्रीयोगः इ सत्यं महोदय चिन् लित् अस्ति वा चिन् चिन् किमस्ति चिन् लित् अस्ति वा निति Okay. आ, परन्तु चिन् अस्ति अतः वृद्धिकार्यं भवति खलु uh, केन बलेन अचो युणिति इति सूत्रस्य प्रसक्तिः अस्ति वा ज अजाग्र योगः चिन् इत्यस्मिन् सन्दर्भे चिन्त् अस्ति अतः अत्र अथोयुणिति इति सूत्रस्य प्रसक्तिः अस्ति वा अथोमितिः इति सूत्रस्य अस्ति ओके अथोमिति सूत्रस्य प्रसक्तिः अस्ति अतः तस्य वृद्धिकार्यं भवति अतः एतत् सूत्रस्य प्रसक्तिः अस्ति वा जाग्रो विचिन्नः अत्र सूत्रस्य प्रसक्तिः नास्ति महोदय खलु यतोहि अत्र सूत्रं वदति ओ अतः अत्र तु अत्र तु चिन् अस्ति अतः किं भवति अतः महोदय वृद्धिकार्यं जागारी भवति वा अजागारी भवति अतः यत्र चिन् विषये यत्र वृद्धिकार्यमस्ति तद्भवति नल् अति अपि यतोहि णित् अस्ति अतः वृद्धिकार्यम् इदानीमपि भवति यत्र णित् तत्र गुणनिषेधम् अपि भवति किन्तु अत्र केवलं गुणः जागरूकचिन्तनम् उच्यते सूत्रं केवलं तादृशसन्दर्भे गुणकार्यं भवति यत्र प्रत्ययः चिण् नास्ति नल् नास्ति अतः णित् नास्ति द्वि नास्ति अत्र णिच् प्रत्ययः णित् अस्ति अतः अत्र अचोणिति इति सूत्रेण वृद्धिः भवेत् किन्तु एतत् सूत्रस्य अपवादबलेन अत्र केवलं णिच् इति प्रत्ययविषये एव वृद्धिकार्यं प्रबाद्य अत्र गुणकार्यं भवति अतः अत्र किं भवति जागृयोगः णिच् सन्दर्भे जागृयोगः अत्र अचोणिति सूत्रं कार्यं कर्तुम् इच्छति परन्तु जागरो विच्छिन्ननिन्सु इति सूत्रेण तस्य अपवादसूत्रमस्ति यतो हा अतः गुणकार्यं भवति जागरियोगः निच् तत्र जागर् योगः ई भवति नूतनधासु अस्ति जागरि जागरि अतः का रूपं भवति जागरयति तदस्ति अत्र यतः क्षिणस्ति अत्र अजागारी इति वृद्धिकार्यं यत्र केवलं णिच् अस्ति अत्र गुणकार्यम् अस्तु एतत्तु विशिष्ट ऋकारान्तजागृधातुः अस्ति ऋकारान्तधातवः ये सन्ति अत्र सामान्यरूपेण किं भवति रूकारान्तधातूनां कृते सामान्यरूपेण महोदय वृद्धिकार्यं भवति अत्र हा तत् तत्तु सत्यमस्ति सामान्यकार्यमस्ति अत्र अत्र द्रु धातुः नृधातुः जृधातुः सन्ति यत्र मित्संज्ञा भवति अतः अत्र किं भवति द्रुयोगः णिच् प्रथमं तु असोण्ट् इति सूत्रेण वृद्धिकार्यं भवति आ, दारी नारी जारी इति भवति परन्तु मितम् अस्ति यतः मितां ह्रस्वः इति सूत्रेण भवति जरी अत्र केवलं द्रु दु, धातोः यत्र भयार्थे अस्ति तदानीमेव तत्र मित्संज्ञा अस्ति यत्र नृधातुः नये नये नये नय इति अर्थे अस्ति टु ब्रिङ्ग् टु लीड् अत्र मित्संज्ञा अस्ति यतः तादृश ज्रूधातुः अपि तथा यत्र हा द्रूभये अत्रैव अत्र नास्ति चेत् धारयति भये नास्ति चेत् अर्थं दारयति रूपमस्ति नृ नयार्थे नास्ति चेत् नारयति इति रूपम् अस्ति अत्र धात्वार्थे तदाध्य तदाधारीकृत्यापि मित्संज्ञा प्राप्नोति Uh, जृ धातुः अत्र uh, जरति जीर्यति जृणाति तत् ल लटीरूपाणि सन्ति uh, mm -hmm. द्विवादिगण्यक्रयादिगणे हा uh, अत्र अत्र अत्रापि अत्र अत्रा, uh, जरयति जारयति विकल्पेन अस्ति <laughs> अस्तु अतः uh, अत्र रु रू धातु किं भवति यतोहि uh, वयं ऋकारान्तधातवः अत्र कुर्मः प्रथमं रुधातुः अस्ति रुधातुः अस्ति गतिप्रापणयोः भ्वादिगणे ओम हा क्षम्यतां स्मृ धातुः प्रथमं कुर्मः स्मृ धातुः अस्ति हा स्मृ आध्यायन् आध्याने ओ आध्याने ध्यानम् इति अर्थे भ्वादिगणे अस्ति अत्र सुब्रह्मण्यमहोदय पठितुम् इच्छति वा अत्र धातु स्मृ धातुः एकवारम् स्मृ धातुः स्मृ आध्याने बादिगणे लटि स्मरति अतः स्मरति जपं करोति ध्यानम् करोति अभिलेखे लिखति स्मृतौ लिखति उपदिशति घोषते पाठयति आध्यानार्थे अस्ति चेत् अध्ययनार्थे नास्ति चेत् यत्र ध्यानं जपं तत्तस्य अर्थे नास्ति चेत् किं भवति अध्ययनार्थे अस्ति चेत् मित् मित्संज्ञा भवति वा आध्यानार्थे न... आध्या चे, ना आध्या चे, नास्ति चेत् मित्संज्ञा न भवति खलु अस्ति चेत् भवति चेत् अतः अत्र मित् इत्यस्य प्रयोजनं किमस्ति किं भवति अत्र स्मृयोगः अस्ति हा स्मृयोगः निच् इत्यस्मिन् सन्दर्भे वृद्धिकार्यं भवति वा केन सूत्रेण अचानि इति सूत्राणि स्मृति स्मृयोगः णे अत्र रुस्थाने वृद्धिरादेशः रूपं किमस्ति स्मार् आर् इति अस्ति खलु स्मार् योगः णे वृद्धिरूपं uh. स्मारयति एवं वा स्मरयति आम् जपं जपमपि जपम एक एकप्रकारकः स्मरणः एव जपं ध्यानम् अपि तदेव किन्तु अपरे अपरेषु अर्धेषु इत्युक्ते तदपि परिशील परिशीलनीयः मम चिन्तनमस्ति यत्र तदपि अहम् अहं पश्यामि महोदय क्षम्यताम् अत्र धात् तत्र अर्थविषये किञ्चित् ममापि भ्रमः अस्ति अतः किञ्चित् एक्स्ट्रा एफर्ट्स् अहं ददामि सुब्रह्मण्यं uh, महोदय अत्र किञ्चित् जाटिन्यं नास्ति अत्र यत्र ऋकारान्तधातुः अस्ति यथा उक्तम् अत्र अचोणिति वृद्धिकार्यं भवति यतोहि निच् इति नि, निमित्तम् अस्ति परे अस्ति अतः स्मार् इति भवति अत्र ऋकारस्य स्थाने वृद्धिरूपम् अस्ति आर् तत् वयं आ, एत, आकारः अकारः आकार अस्ति प्रथमतया औरण्ड्रपरः किन्तु अकारस्य वृद्धिः आकारः तत्सर्वं वयं जानीमः अतः अत्र आध्यानार्थे यत् मुत्संज्ञा अस्ति तस्य प्रयोजनम् अत्र लभ्यते यतोहि अत्र स्मारी इति यदङ्गम् अस्ति नूतनधातुः अस्ति तत्र मितामह्रस्वः इत्यनेन अत्र आकारस्य ह्रस्वत्वं भवति स्मरीति यत्र लभ्यते अधुना अत्र आध्यानार्थे स्मरयति इति रूपमस्ति यत्र आध्यानार्थे नास्ति चेत् अत्र स्मारयति इति रूपम् अत्र मितां ह्रस्वः इति सूत्रस्य कार्यं न भवति अस्तु अधुना वयम् आकारान्तविषये पुगागमः परिशीलित परिशीलितवन्तः ह्रीब्ली री तस्मिन् विषये अपि पुगागमः परिशीलितवन्तः अधुना ऋकार ऋकारान्तधातूनां पुगागमः भवति प्रथमतया ऋकारः तदेव धातुः गतिप्रापणयोः भुवादिगणे अत्र किञ्चित् धात्वादेशसूत्रमस्ति एतत्तु बहु आ, आ, आ, बहु परिचितसूत्रमस्ति यतोहि अत्र पिबति अत्र तत्र धात्वादेशः किमर्थं भवति क्षितिप्रत्यये परे इति वयं जानीमः एव पाघ्राध्मा स्थां नादान् दृशि अर्ति सर्ति शद सदां पिब जिघ्र धम तिष्ठ मन यच्छ पश्य रुच्छ धौ शीय सीदाः इत्यनेन मूलधा मूलधातूनां कृते धातु धातोः स्थाने धात्वादेशः भवति यत्र क्षितिप्रत्यये परे अत्र ऋकारः अस्ति ऋकारस्य स्थाने अत्र ऋच्छ इति आदेशः भवति किन्तु अत्र अत्र तु णिच् प्रत्ययः अस्ति णिच् षित् नास्ति अतः अत्र ऋकारः योगः णिच् अस्मिन् सन्दर्भे पुगागमः भवति खलु यतोहि एतत् अर्तिह्रीक्नुीक्ष्मायां पूर्णौ तद् अर्ति इति कीदृशरूपमस्ति महोदय वदति वा अत्र अर्ति इत्युक्ते अर्ति इति महोदयः अस्ति हा इक्ष्तिपौ धातुनिर्देशौ इति वक्तव्यः रुयोगः स्तिप् इति रूपमस्ति अत्र अर्ति अतः अत्र रुयोगः णिच् इत्यस्मिन् सन्दर्भे साक्षात् एतत् सूत्रं सर्वं प्रबाध्य अत्र छोयन् सर्वं प्रबाध्य अत्र साक्षात् पुगागमः विधीयते एतेन सूत्रेण अतः किं भवति रियोगः णिच् इत्यस्मिन् सन्दर्भे पुगागमः भवति रियो रुयोगः पकारः योगः णिच् अधुना रुप् इति अस्ति अत्र अत्र के किं कार्यं भवति रुप् इति पुगन्ताङ्गम् अस्ति अतः सूत्रस्य प्रसक्तिः अस्ति खलु अत्र लघुपधा इति बलेनापि भवितुं शक्नोति वा शक्नोति किन्तु अत्र अत्र किञ्चित् कान्फ्लिक्ट् किमपि नास्ति पुगन्ताङ्गमस्ति पुगन्ताङ्गं तस्य बलेन एव भवति यतोहि साक्षात् पुगन्ताङ्गमस्ति अत्र अतः अत्र उपधायां तत् ह्रस्ववर्णः वा तत् तस्य महत्त्वं किमपि नास्ति अतः लघुपधस्य अपि अस्ति किन्तु पुगन्ताङ्गस्य तत् भागेन एव महत्त्वम् अस्ति भागस्य एव महत्त्वमस्ति अतः अत्र अत्र गुणं भवति तत्र तत्तु वयं जानीमः अत्र रुकारस्य स्थाने आर्य इति अकारः उरन्परः इत्यनेन सर्वदा अपरः भवति अर्क् योगः अधुना तत्रापि सामान्यरूपमस्ति सनाद्यन्ता धातवः कर्तरिषप् अर्पयति इति रूपम् अस्ति अस्तु एतत्तु अजन्तविशेष अजन्तधातवः यत्र सामान्यचिन्तनम् अस्ति अजन्तधातूनां कृते तत्तु अहं मन्ये बहु सम्यक् चिन्तनं जातं विशेषकार्याणि तु साक्षात् विशिष्टधातूनां कृते विशेषकार्याणि सन्ति यत्र पुगागमं प्रबाध्य अन्यत् किमपि आगमः अथवा किञ्चित् धात्वादेशः अभवत् अथवा यत्र नुगागमः युगागमः युगागमः सर्वम् अस्ति यत्र धातूनां कृते अपि धात्वादेशः अथवा यत्र गुणः गुणकार्यं वा अथवा वृद्धिकार्यं वृद्धिकार्यं प्रबाध्य गुणकार्यं तत्सर्वमपि विशेष विशेषकार्यम् इत्यस्मिन् केटेगरी अस्ति अस्तु अग्रिमसप्ताहे विशेषः हलन्तधातवः इति वयं परिशीलयामः अस्तु किञ्चित् कोऽपि प्रश्नः अस्ति वा अग्रिमसप्ताहे मिलामः धन्यवादः Thank you.